मः सर्गः भररे ब्रुवतिः स्वप्नम् दूतास्ते क्लान्तवाहनाः प्रविश्यासह्यपरिखम् रम्यम् राजगृहम् समागम्य च राज्ञा राजपुत्रेण चार्चिताः राज्ञः पादौ गृहीत्वा च चमोचुर्भरतम् वचः पुरोहितस्त्वान्कुशलम् प्राह सर्वे च मन्त्रिणः वरमाणश्च नैर्याहिकृत्यमात्यैकम् त्वया इमानि च महार्हाणि वस्त्राण्याभरणानि च प्रतिगृह्य विशालाक्षमातुलस्य च दापया अत्र विंशतिकोट्यस्तु नृपतेर्मातुलस्य ते दशकोट्यस्तु सम्पूर्णास्तथैव च नृपात्मज तु तत्सर्वम् स्वनुरक्तः दूतानुवाच भरतः कामैः सम्प्रति पूज्यताम् कच्चित् सकुशली राजा पिता दशरथो मम कच्चिदारोग्यता रामे लक्ष्मणे च महात्मनि आर्या च धर्मनिरता धर्मज्ञा धर्मवादिनी अरोगा चापि कौसल्या माता रामस्य धीमतः कच्चित् स्वमित्रा धर्मज्ञा जननी लक्ष्मणस्य शत्रुघ्नस्य च वीरस्य अरोगा चापि मध्यमा आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी अरोगा चापि मे माता कैकेयी किमुवाचः एवमुक्तास्तु दूता भरतेन महात्मना ऊचुः सम्प्रश्रितम् वाक्यमिदम् तम् भरतम् तदा कुशलास्तेन रव्याघ्रयेषाम् कुशलमिच्छसि पद्मा युज्यतां ृणुुते पद्माुझ्यता चा पिते रथ भरतूता मुक्तभ्यषत आपृेह महाराज दूता सन्वरयुक्त दूता पार्थिवात्मज दूत सचोदि वाक्य माता महुवाच राजन् पितुर्गमिष्यामि सकाशम् दूतचोदितः पुनरप्यहमेष्यामि यदा मे त्वम् स्मरिष्यसि भरतेनैव मुक्तस्तु नृपो मातामहस्तदा तमुवाच शुभम् वाक्यम् शिरस्याघ्राय राघवम् गच्छता तानुजाने त्वाम् कैकेयीसु प्रजास्त्वया मातरम् कुशलम् ब्रूयाः च परम् तप पुरोहित कुशल ये चे ज सतमा तौ चातमहे श्वास भ्रातरौरामण तस्म हस्तुतमाश्चिदा कम्बान जिना चेको राज भरताय दद धनमुति संवृद्धान्याघ्र वीर्यबोपन दंष्ट्राक्तान्म महाकायां छुनश्चोपा ददौ रुक्मणिष्कसहस्रे द्वे षोडशाश्वशतानि च सत्कृत्य केकयी पुत्रम् केकयोधनमादिशत् तदा मात्यानभिप्रेतान् विश्वास्यांश्च गुणान्वितान् ददा वश्वपतिः शीघ्रम् भरतायानुयायिनः ऐरावतानैन्द्रशिरान्नागान् वै प्रियदर्शनान् खरान् शीघ्रान् सुसंयुक्तान् मातुलोऽस्मै धनम् ददौ सदर्तम् केकयेन्द्रेण धनम् तन्नाभ्यनम् ददा भरतः केकयी पुत्रो गमनत्वरया तदा बभूमह्यस्य हृदये चिन्ता सुमहती तदा त्वरया चापि दूतानाम् स्वप्नस्यापि च दर्शनात् स स्ववेश्माभ्यतिक्रम्य प्रपेदे सुमहच्छ्रीमान् राजमार्गमनुत्तमम् अभ्यतीत्यततोपश्यदन्तः पुरमनुत्तमम् ततस्तद्भरतः श्रीमानाविवेशा निवारितः समातामहमापृच्छ्य मातुलम् च युधाजितम् रथमारुह्य भरतः शत्रुघ्नसहितो ययौ रथान्मण्डलचक्रांश्च योजयित्वा परः शतम् उष्ट्रगोष्वखरैर्भृत्या भरतम् यान्तमन्वयुः बलेन गुप्तो भरतो महात्मा सहार्यकस्यात्मसमैरमात्यैः आदाय शत्रुघ्नमपेतशत्रुर्ग्रहाद्ययो सिद्ध इवेन्द्रलोकात् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्ततितमः